तेजानास्तु दौर्बल्यं भीमसेन मृते महत् अस्मान् बलवतो ज्ञात्वा नयतिष्यन्ति दुर्बलाः इहागतेषु वातेषु निदेशवशवर्तिषु प्रवर्तिष्यामहे राजन् यथा शास्त्रं अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम् एकैकस्तत्र कौन्तेयः ततः कृष्णा विरज्यतां प्रेष्यतां चैव राधेयस्तेषामागमनाय मै तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः एतेषामप्युपायानां यस्ते निर्दोषवान्मतः तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते यावद्ध्यकृतविश्वास द्रुपदे पार्थिवर्षभे तावदेव हि एषा मम मतिस्ता निग्रहाय प्रवर्तते साध्वी वा यदि वा साध्वी किं वा राधेय मन्यसे इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि दुर्योधनवाक्ये द्विशततमोऽध्यायः